पुरे नायक पशुपते गोरेनायकपशुपते उमापते कला उमापते मा पते सामगानप्रिय पशुपते सामगानप्रिय पशुपते शम्भो शङ्कर उमापते शम्भो शङ्क पशुपते गौरेणायक पशुपते चंद्रकलाधर उमापते मा पते चन्द्रकलाधर मा पशुपते उमा शंभो शंकर शङ्कर उमा गौरे नायक पशुपते गौरेनायक पशुपते चन्द्रकला धर samagan priya pashupade samagan priya pashu गौरी नायक भसोपते चंद्रकलाधर उमापते, चंद्रकलाधर उमापते प्रिय पशुपते सामदान प्रिय पशुपते शम्भो शङ्कर उमापते शम्भो शङ्कर उमापते दूरे उमा नायक पशुपति सामदानप्रिय पशुपते शम्भो शङ्कर उमापते शम्भो शङ्कर उमापते गौरे नायक पशुपते गौरी उमापते चन्द्रकलाधर उमापते सामगानप्रिय पशुपते सामदानप्रिय पशुपते शम्भो उमापते शम्भो उमापते गौरीनायक पशुपते चन्द्रकलाधर उमापते चन्द्रकलाधरौ मापते सामगानप्रिय पशुपते सामगानप्रिय पशुपते शम्भो उमापते शम्भो उमापते दूरीनायक पशुपते नानायक पशुपते चन्द्रकलाधर उमापते चन्द्रकलाधर उमापते सामगानप्रिय पशुपते सामगानप्रिय पशुपते शम्भो शङ्कर उमापते शम्भो शङ्कर पशुपते गौरी पशुपते चन्द्रकलाधर उमापते चन्द्रकलाधर उमापते सामगानप्रिय पशुपते सामगानप्रिय पशुपते शम्भो शङ्कर उमापते शम्भो शङ्कर उमापदे गौरी पशुपते पशुपते चन्द्रकलाधर उमापते चन्द्रकलाधर उमापते सामदानप्रिय पशुपते सामदानप्रिय पशुपते शम्भो शङ्कर उमापते शम्भो शङ्कर उमापते गौरे नायक पशुपते गौरे नायक पशुपते शम्भो शङ्कर उमापते शम्भो शङ्कर